त्रयस्त्रिंशोऽध्यायः वैशंपायन उवाच याज्ञसेन्यावच श्रुत्वा भीमसेनो ह्यमर्षणः निःश्वसन्नुपसङ्गम्य क्रुद्धो राज्यस्य पदवीम् धर्म्याम् व्रजसत्पुरुषोचिताम् धर्मकामार्थहीनानाम् किन्नो वस्तुम् नैव धर्मेण तद्राज्यन्नार्जवेन न अक्षकूटमधिष्ठाय हृतम् दुर्योधनेन गोमायुम सिंहा दुर्बल नलीयसा आमषंबिघ सा तद्राज्यं हि नो हृत धर्मेश प्रतिन्न प्रभवन्ध काम अर्थ भवतो नवधानेन राज्यम् नः हृतं हृतम् अहार्यमपि शक्रेण गुप्तङ्गाण्डीव धन्वना कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः हृतमैश्वर्यमस्माकम् जीवताम् भवतः कृते भवतः प्रियमित्येवम् महद्यसनमीदृशम् धर्मकामे प्रतीतस्य प्रतिपन्ना भारत कर्षयामस्वमित्राणि नन्दयामश्च शात्रवान् आत्मानम् भवताम् शास्त्रैर्नियम्य भरतर्षभ यद्वयन्न तदैवैतान् धातराष्ट्रान्निहन्महि भवतः शास्त्रमादाय तन्नस्तपति